हरि ओं श्रीसीतार चन्द्राभ्यां नमः अथ श्री अध्यात्मरामायणे युद्धकाण्डे द्वितीय स्वर्गः श्रीमहादेव उवाच लङ्कायां रावणो दृष्ट्वा कृतं कर्म हनुमतः दुष्करं दैवतैवापि रिया किञ्चिद्वाङ्मुख आहूय मन्त्रिणः सर्वान् इदं नमब्रवीत हनोमता कृतं कर्म भवद्भिः दृष्टमेव तत् प्रविश्य लङ्कां दुर्दर्शां दृष्ट्वा सीतां दुरासदाम् हत्वा च राक्षसान् वीरान् अक्षं मन्दोदरी सुतं त्यग्लिङ्कामशेषेण सागरम् युष्मान् सर्वान् अतिक्रम्य स्वोगात् पुनरेव हि सः किं कर्तव्यमितोऽस्माभिः यूयं मन्त्रविचारदः मन्त्रयध्वम् प्रयत्नेन यत्कृतम् मे हितं भवेत् रावणस्य वच श्रुत्वा राक्षसास्तथा ब्रुवन् कुतो राम तव लोकजितोरणे इन्द्रस्तु बद्धा निक्षिप्त पुत्रेण तव पत्तने जित्वा कुबेर्मानीय पुष्पकम् भुज्यते त्वया यमो जिते कालदण्डात् भयं नाभूतव प्रभो वरुणो हुङ्कृतेनैव जितः सर्वेऽपि मयो महासुरा भीत्या कन्यां दत्त्वा स्वयं तव तद्वशे वर्ततेऽद्यापि किमुतान्ये महासुरः हनुमधर्षणं यत्तु तदवज्ञा कुटं च नः वानरोऽयं किमस्माकम् अस्मिन् पौरुषदर्शने इति उपेक्षितमस्माभिः धर्षणं तेन किं भवेत् वयं प्रमत्ता किम् तेन वञ्चिता स्मो जाने मो यदि सर्वे कथं जीवन् गमिष्यति अज्ञाप्य जगत्कृष्णम् अवानरम् मानुषं, मानुषम् कुत्वा सर्वे प्रत्येकम् वा नियोजय कुम्भकर्ण तदा प्राह रावणम् राक्षसेश्वरम् आरब्धम् यत् कर्म स्वात्मनाशाय केवलम् न दृष्टो सिरला भाग्यात् ्रामेण महात्मन यदि पश्यति रामस्वां जीवन्नायसि रावण रामो न मानुषो देव साक्षात् नारायणो व्यय सीता भगवती लक्ष्मी रामपत्नी यशस्विनी राक्षसानां विनाशाय त्वया नीता सुमध्यम् विषपिण्डम्यवागिर्य महामीनो यथा तथा आनीता जानकी पश्चात् त्वया किं वा भविष्यति यद्यप्यनोचितं कर्म त्वया जानता सर्वं समं करिष्यामि सचित्तो भव प्रभो कुम्भकर्णवच श्रुत्वा वाक्यम् इन्द्रजिद्ब्रवीत् देही देव ममाभिज्ञां हत्वा रामं च लक्ष्मणम् सुग्रीवं वा न चैव सुनर्यास्यामिति तथा गतो भागवत प्रधानो विभीषणो बुद्धिमतां वृष्ठ श्रीरामपादद्वेकतान् प्रणम्यदेवारिमुपोपविष्ट विलोक्य कुम्भशृणादिदैत्यान् विस्मयेन विलोक्यकामातुरमप्रमातौ दशाननम् प्राह विशुद्धबुद्धि नैकुम्भकर्णेजितौ च राजन् तथा महापाशमहोदरो तौ निकुम्भकुम्भौ च तथा तिकाय स्थातुं न महाग्रहेण ग्रस्थोऽसि राजन्न च देवि मेव सत्कृत्य महाधनेन दत्त्वाभिरामाय सुखी भव तम् यावन्न रामस्य सीता शिलीमुखा लङ्कामभिव्याप्य शिरान्ति रक्षसां चिन्तन्ति कस्य भो तां जान किं त्वम्प्रसिदातुमर्हसि यावन्न गाभाय कपयो महाबलाय हरिन्द्रतुल्यानकदन्त शङ्कां समाक्रम्य विनाशयन्तिते, ते तावद्रुतं देहि रघुतमायताम् जीवन्न रामेण विमोक्ष सह तम् गुप्तसुरेन्द्रैप्यङ्करेण न देव राजाङ्कगतो न मृत्यो पातालोकानपि सम्प्रविष्ट शुभम् पवित्रं च भीषणवच खल प्रतिजग्राहनैवासौ म्रियमाण इव औषधम् कालेन नोदितो दैत्यौ विभीषणम् अथ ब्रवीत् मद्दत्त भोगे पुष्टाङ्गो मत्तमीपे वसन्नपि पतिपममाचरत्येष ममैव हितकारिणः मित्रभावेन शत्रुर्मे दातो नास्त्यत्र संशय अनार्येण कृतघ्नेन सङ्गतिर्मे न युज्यते विनाशमाभिकाङ्क्षन्ते ज्ञाते नान्यातये सदा योऽन्यस्त्वैवं विहं ब्रूयात् वाक्यमेकं निशाचरह, अन्मि तस्मिन् क्षणेव तैरक्ष कुलाधमम् श्रावणेनैव मुक्तश्चन् परुषं स विभीषणः उत्पपात् सभामध्यात् गदाबलः चतुर्भिर्मन्त्रिवी सार्धं गगनस्थो ब्रवीद्वचः क्रोधेन महताविष्टो रावणं दशकन्धरं मा विनाशमुपहितं प्रियवादीनमेव मां दिक्करोषि तथापि तम् ज्येष्ठो भ्रातापि तु तमः कालो राघवरूपेण दातो दशरतारये काले सीताभिधानेन दाताय जनकनन्दिनी तौ अभावागतावत्र भूमे वारावत् वारापनुत्तये तेनैव प्रेरितस्तं तु न शृणोषि तं मम श्री राम है। श्रीराम पुखे साक्षा परिर भूता संस्थित नामेदेन तमल यहाँ वृक्षे भेदेन तक ज्ञान चक्षुषा पञ्चकोशादिभेदेन तत्तन्मायैवा बभो नीलपीतादियोगेन निर्मल स्फटिको यथा स एव नित्यमुक्तोऽपि सोमायै गुणबिम्बितः कालप्रधानम् पुरुषो अव्यक्तं चेति चतुर्विध प्रधान पुरुषाभ्यां च जगत्कृष्णम् सृज त्यज कालरूपेण कलनाम् जगतः कुतव्यः काररूपी स भगवान् रामरूपेण मायया ब्रह्मणा प्रार्थितो देवे, तद्बधार्थं यतः तदन्यथा कथं कुर्यात् सत्यसङ्कल्प ईश्वरः हनिष्यति त्वां रामः सपुत्र बलवाहनम् हन्यमानं न द्रष्टुं रामेण रावण साम्राक्षसकुलं कृत्नं ततो गच्छामि राघवम् मयि या ते सुखे भूत्वा भवने चिरम् विभीषणो रावणवाक्यक्षणात् विसृज सर्वं सपरिच्छदं गृहं जगाम रामस्य पद अरविन्दयो सेवाभिकाङ्क्षी इति श्रीमद् ध्यासरामायणे मां मजुरसंवादे युद्धकाण्डे द्वितीयसर्ग श्री सीतारामचन्द्रार्पणमस्तु